गर्गसंहित खण्डं फैव् मधुराखण्डम् अध्यायं 14. श्रीनारद उवाच एवं गोपान श्री गोपान् श्रीकृष्णविरहारान् उवाच प्रेमसंयुक्त उद्धवो गदविस्मयः उद्धव उवाच अहं श्री कृष्णो दासोऽस्मि तत्प्रियस्तद्रहस्करः भवतां कुशलं द्रष्टुं प्रेषितो हरिणा त्वरम् पुरीं गत्वा धहरये निवेद्य विरहं तु वः तं प्रसन्नं करिष्यामि तदङ्घ्रौ नेत्रवारिभिः नत्वा हरिं हि भवतां समीपं हे व्रजौकसः आगमिष्याम्यकं शीघ्रं शपथो न यूयं प्रसन्ना भवद माशोगं कुरुताधवै अस्मिन् व्रजेऽपि गोपाल द्रक्ष्यधश्रीपदिं हरिं श्रीनारद उवाच एवमाश्वास्य गोपालान्रथस्थो यदुनन्दनः श्रीदामाद्य गोपालै सहि दो हर्षपूरितः विवेशनन्दनगरं सूर्ये सिन्धु गदे सदि आगतं शुद्धवं श्रुत्वा नन्दराजो महामतिः परिरभ्य मुदा शीघ्रं पूजयामः सहर्षितः कशिपुस्तं स्थितम् शान्तमुद्धवं कृतभोजनं कशिपुस्थो नन्दराजप्राहगद्गदया गिरा नन्द उवाच पुरिशूरसेन आस्ते स्वपुत्राय कुशली महामदे मृदे यादवपुङ्गवानां जातं सखे सौख्यमदः भुवि कच्चित कदाचित् सबलो हि माधव स्मरत्य सौवाजननीं यशोमदीं गोपालगोवर्धन गोगणान् व्रजं वृन्दावनं वा पुलिनं तरङ्गिणीम् आदैव बिम्बाधरं सुन्दरम् अम्बुजेक्षणं द्रक्ष्याम्यहं मन्दिरम् चत्वराजिरेर्भकैर्लुठन्तं सबलं मुहुर्मुहुः कुञ्जो निकुञ्चो यमुना महानदी गोवर्धनोरण्यमिदं वनानी। गृहैर्लता वृक्षगवां गणैः सह विना मुकुन्दं विषवत्विदं जगद दिग्जीवनं मे शयनं च भोजनं कृष्णं विना पद्मदलायते क्षणं चन्द्रं विना भूमितले च कोरवज्जीवामि तस्यागमनाशया भृश्यम् हर्तुं भुवो भरमतीव दैवतैः सम्प्रार्थितं पूर्णतमं महामदे यादं सदां रक्षण तत्परं स्वयम् मन्ये हि कृष्णं सबलं परात्परं श्रीनारद उवाच संस्मृत्य संस्मृत्य हरिम्बरेशं बभूव तूष्णीं नवनन्दराजः शिरोनितायाप्युपर्षणे स्वे स्युत्कण्ठरो माञ्चिदविह्वलाङ्गः श्री नन्दनेत्राम्भुजवारि सन्ददि राजंस्तदा कृष्णसखस्य पश्यदः शय्यां सवस्त्रामुपबर्षणां दां कृत्वार्द्रदां प्राङ्गण आचाल चा श्रुत्वोद्धवं श्रीमधुरापुरागदं कपाडमेत्याशुयशो मदी शृण्वं त्यलं स्वस्य सुतस्य वर्णनं स्नेहस्रवत् सुस्तननेत्रपङ्गजा विकाय लज्जां कृणया सुधस्य सा पप्र सर्वं कुशलं तदोद्धवम् आप्रोक्ष्य वस्त्रेण दृगश्रुदसंसदिं स्थिते जनन्दे हरिभावविह्वले श्रीयशोदोवाजा क्वजिस्मरति मां कृष्णो नन्दराजमधापि वा भ्रातरं नन्दराजस्य नन्दनम् सनन्तम् भ्रातरं नन्दराजस्य सन्नन्तम् दर्शनोत्सुकम् नन्ता नवोपनन्ताश्च वृषभानुन्व्रजेषु षड येषामारोहमास्ताय बालके निर्वने वने कन्दुकक्रीडयारे मे सानन्दं नन्दनन्दनः तान् गोपान् स्नेहसंयुक्तान् कदाचित् स्मरति स्वतः यकोऽयं मे सुतप्राप्तो नः सुधा बहवश्च ये, ये। जननीं दीनां ययौ गन्धरम् अहो कष्टम् स्नेहवदाम् दुर्निवारम् महामदे किम् करोमि विना पुत्रम् कथम् जीवामि मानद माधर्मह्यम् देहि दधि मादर् हैयङ्गवम् नवम् एवम् चक्रे सदा गृहे मध्याह्ने स कथम् कृष्णो भोजनम् कर्तुमर्हति ममात्मजोऽयम् श्रीकृष्णो जीवनं व्रजवासिनाम् व्रजे धनं कुले दीपो मोहनो बाललीलया लालनैपालनैस्तस्य दिनं मे क्षणवद्गतम् तद्दिनं कल्पवज्जादं विनाहो नन्दनन्दनं वत्सान्वारयितुं कृष्णो ग्रामस्यीम्निनदीतडे नकारिदोर्भकै सार्धं स चाहो मधुरां गतः हे मोहनेधि दूरात्तमङ्गं नीत्वा दलालनं चकार नन्दराजोऽयं तं विना किन्नदां अहो दाम्ना मया बद्धो निर्मोहिन्यैकदाशिशुः पाण्डे भग्नीकृदे दध्नशोचमि चरितं च यत तत्प्राङ्गणम् सर्वसभा च मन्दिरं द्वारश्च वीधिर्व्रज हर्म्यपृष्टयः शून्यम् समस्तम् मम जीवनं धिग्विना विषवत्विदं जगद श्रीनारद उवाच यस्योदानन्तयो वीक्ष्य परमं प्रेमलक्षणम् उद्धवो नितरां राजन्विस्मितो भूद्गदस्मयः उद्धव उवाच रोममात्रं मम तनवजिह्वाचे जायदे त्वः युवयोस्तदपि श्वाग्ं कर्तुं नालं महाप्रभो परिपूर्णतमे साक्षा श्रीकृष्णे पुरुषोत्तमे ईदृशी च कृता भक्तिर् युवाभ्यां प्रेमलक्षणा तीर्थाडनतपोदान संख्ययोगैश्च दुर्लभा शाश्वती युवयोः प्राप्ता या भक्तिप्रेमलक्षणा मा शोकं कुरु हे नन्द हे यशो देवजेश्वरि पत्रद्वयं गृहाणाशु न संशयः सहाग्रजो अग्रजो नन्दसून कुशल्यास्ते यदोः पुरी यादवानां महत्कार्यं कृत्वा सबलप्रभुः ह्रस्वकालेन छात्रापि भगवानागमिष्यदि परिपूर्णतमम् विद्धि श्रीकृष्णम् नन्दनन्दनम् कंसादीनाम् वधार्थाय भक्तानाम् रक्षणाय च ब्रह्मणा प्रार्थितकृष्णोऽवततार गृहे तव जातमात्रोद्भुताम् लीलाम् चकारसबलो हरिः पूतनाप्राणहरणम् शकटस्य निपातनम् तृणावर्तनिपातश्च यमलार्जुनभञ्जनम् स्वमुखे च यशोदायै विश्वरूपस्य दर्शनं वृन्दावने च भगवान् चारयन् प्रभुः वधं चकारगोपानां पश्यतां भगवत्सयोः अकासुरस्य च वधो धेनुकस्य विमर्दनं मर्दनं कालीयस्यापि वह्निपानं चकारः प्रलम्बस्य वधं पश्चात् बलदेवस् चकारः गोवर्धनम् समुत्पाट्य हस्ते नैके न लीलया पश्यदां पश्यदाम् पुष्करं गजराडिव चूडामणिं शङ्खचूडा जहार जगदाम्पदिः अरिष्टस्य वधं कृत्वा केशिनं व्योमा महादैत्यं व्योमासुरमहादैत्यमुष्टिनाथं ममर्दः तथा वै मधुरायां तु चक्रे चित्रं महामते विगथ्यमानं रजकं करेणाभि जखानतम् प्रचण्डं कंसकोदण्डं मध्यतस्तद्बञ्जः इक्षुदण्डं यथा नागः सर्वेषां पश्यतां नृणां द्वीपं कुवलया पीडं नागायुधसमम्बले चुण्डा दण्डे सङ्गृहीत्वा पादयामास भूबले मुष्टिकं मुष्टिकम् कूढम् तो शलम् तोशलमेव च पादयामास भूपृष्ठे मल्लयुद्धनमाधवः का सम् मधोत्कटम् बले मम् चाद्गृहीत्वा तम् कृष्णो भ्रामयित्वा भुजौ ज पादयामस भूभृष्टे कमण्डलुमिवार्भकः इभोपरि यथा सिंहस्तस्योपरि पपादसः कंसानुजांश्च कङ्गादीन् बलदेवो महाबलः ममर्धमुद्गरेणाशु मृगान्वै मृगराणिव गुरवे दक्षिणां दातुं समुत्पत्य महार्नवे शङ्खरूपं पञ्चजनं निजखानहरिस्वयम् अद्भुतानि चरित्राणि चैदानि श्रीहरिम् विना कक्करोति महानन्द तस्मै श्री हरये नमः इति श्रीगर्गसंहितायां मधुराखण्डे श्रीनारदबहुलाश्वसंवादे नन्दराजोद्धवमेलनम् नाम चतुर्दशोऽध्यायः ओम् अध्यायम् 15 श्रीनारद उवाच एवं हि नन्दोद्धवयोहरे कथयथोकथा व्यधिताक्षणवद्राजन् क्षणदाकर्षवर्धिनी ब्राह्मे मुहूर्ते चोद्धाय गोप्य सर्वा गृहे गृहे देहल्यङ्गणमालिप्य दीपांस्तत्र निरूप्य च प्रक्षाल्यहस्तपादौ च मेभ्यां नेत्रं निधाय च ममधुः सर्वतो युक्तदापि चिदानि दधीनि ताः नेत्राकर्षचलद्भारभुजकङ्कणकिङ्गिणीः वेणीभ्यो विगलत्पुष्पा स्फुरत्कुण्डलमण्डिताः चन्द्रमुख्यकञ्चनेत्राश्चित्रवर्णैर्मनोहराः मङ्गलानि चरित्राणि श्रीकृष्णबलदेवयोः गायन्ध्यप्रेमसंयुक्ता यत्र तत्र गृहे गृहे घोषे घोषे शुभा गावोरम्भमाणाय इदस्ततः सर्वत्र गोपिकागीतं दद्धिशब्देन मिश्रिदं वीद्भ्यां वीद्भ्यां तदशृण्वन् विस्मितश्चोद्धवो ब्रवीद अहो नंदनगरे नन्दनगरे भक्तेर्नृत्यधियत्र च एवं वदन् बहिर्ग्रामाद्ययौ स्नातुं नदी जले गोप्य ऊचुः कस्यायमध्यात्र रथसमागतो क्रूरोधव क्रूर उदागतः यनैवनीदो यनैव नीतो मधुरमहापुरीं कस्मिन्कुकाले कञ्चलोचनः कस्मिन् कुकाले जननि सदां स्नेह वदां कद्रुर्यधानागचयं वृषावृतं कद्रूर्यधानागचयम् विषावृदम् अन्तुं वृथा लोकजनानिदत्तस्ततः दा कंसार्धकृत् कंससखो दिनिर्घृणो सोऽयम् पुनः किं व्रजमण्डलं गतः भर्तोर्मृतस्याभिः परलौकिकीमस्माभिरद्यैव करिष्यदि क्रियां श्रीनारद उवाच एवं वदन्त्यो व्रजगोपवध्वस्सन्ताड्यसूतं च मुखेऽङ्गुलिभ्यां पप्रचुराद्गदबुद्धिमार्दम् पप्रचुराराद्गदबुद्धिमार्तं त्वरं वदैतत्किलकस्य यानं कनप्रभं पद्मदलायते क्षणं कृष्णाकृतिं कोटिमनोजमोहनं पिदाम्बरं षट्पद सङ्खसङ्कुलां मालां दधानं नववैजयन्तीं स्फुरत् सहस्रच्छदपद्मपाणिं वंशीधरं वेत्रकरं मनोहरं बालार्ककोटिद्विधिमौलिमण्डनं महामणिं कुण्डलमण्डिताननं गत्याकृतिश्रीतनुवास सुस्वरैः श्रीकृष्णसारूप्य धरं समुद्धवं विलोक्य सर्वानृपविस्मिदास्तदो विज्ञाय गोविन्दसखं ययुः पुरः ज्ञात्वाधसन्देशहरं हरे प्रभोः सुवाक्यनीत्या परमादरेण तं गुप्तं हि प्रष्टुं कुशलं सदाम्पदे नीतोद्धवं ताः कदरीवनं गदाः यत्रैव वृषभानुनन्दिनी कृष्णातडे निकुञ्जमन्दिरे समास्तिदा तद्वीरभादुराभृश्यं कम्मन्यदेशादि जगद्धरिं विना रम्भादलैश्चन्दनपक्वसञ्च स्वारास्फुरचीतलमेघमन्दिरं कृष्णाचलचारुतरङ्गशीकरं स्वदः शुद्धा रश्मिगलशुद्धा यदादृश्यं यत्कदलीवनं च तद्राधा वियोगा भृशं बभूव सर्वं सतदं हि भस्मसात् कृष्णा गमास्यात् मतनुं हि रक्षति श्रुत्वे धवं कृष्णसखं समागतं चकारराधास्वसखीभिरादरं जलासनाद्यैर्मधुपर्कमङ्गलैः श्रीकृष्णकृष्णे दिमुहुर्वदन्ध्यलं राधां हि गोविन्दवियोगखिन्नां कुह्वां यथा चन्द्रकलां तदोद्धवः नदां कृशाङ्गीं कृतहस्तसम्बुढः प्रदक्षिणीकृत्य जगादघर्षिदः उद्धव उवाच सदास्ति कृष्णपरिपूर्णदेवो राधे सदा त्वं परिपूर्णदेवी श्रीकृष्णचन्द्रकृति नित्यलीलो लीलावजी त्वं कृतनित्यलीला कृष्णोऽस्ति भूमा त्वमसि इन्दिरा सदा ब्रह्मास्ति कृष्णस्त्वमसि स्वरा सदा कृष्णशिवस्त्वं च शिवा शिवार्था विष्णुप्रभुस्त्वं किल वैष्णवीपरा कौमारसर्गिहरिरादिदेवता तमेवहि ज्ञानमयी स्मृतिशुभा लयं वस्सा क्रीडनतत्परो हरिर्यज्ञो वराहो वसुधा त्वमेवही देवर्षिवर्यो मनस हरिस्वयं त्वं तत्र साक्षान् निजहस्तवल्लगी नारायणो धर्म सुधो नरेण हि शान्तिस्तदा त्वं जनशान्तिकारिणी कृष्णस्तु साक्षात् कपिलो महाप्रभुसिद्धिस्त्वमेवासि च सिद्धसेविता दत्तस्तु कृष्णोऽस्ति महामुनीश्वरो राधे सदा ज्ञानमयि त्वमेव हि यज्ञो हरित्वम् किल दक्षिणाकरिरुक्रमस्त्वम् हि कि सदा जयन्त्यदः पृथुर्यदा सर्वनृपेश्वरो हरिरर्चिस्तदा त्वम् नृपपट्टकामिनी शङ्खासुरम् कन्तुमभुद्धरिर्यदा मत्स्यावतारस्त्वमसि श्रुतिस्तदा कूर्मो हरिर्मन्दरसिन्धु मन्थने नेत्री वासुगी धन्वन्तरिष्टार्तिहरो हरिपरस्त्वमौषधी दिव्यसुधा मयि शुभे श्रीकृष्णन्द्रस्तु बभूव मोहिनी त्वं मोहिनी तत्र जगद्विमोहिनी हरिर्नृसिंहनृसिंहलीलया लीला, लीला तदा त्वं निजभक्तवत्सला बभूव कृष्णस्तु यदा हि वामनकीर्तिस्तदा त्वं निजलोकीर्तिता हजिर्यदा भार्गवरूपदृक्पुमान् धाराकुठारस्य तदा त्वमेव हि श्रीकृष्णचन्द्रो रघुवंशचन्द्रमा यदा तदा त्वं जनकस्य नन्दिनी श्रीशर्गधन्वामुनिबादरायणो वेदान्तकृत्वं किल वेदलक्षणाम् सङ्घर्षणो माधव एव वृष्णेषु त्वं रेव ब्रह्म भव समास्तिता बुद्धो यदा कौनवमोहकारको बुद्धिस्तदा त्वं जनमोहकारिणी कल्की यदा धर्मपदिर्भविष्यति हरिस्तदा त्वं सुकृतिर्भविष्यति श्रीकृष्णचन्द्रोऽस्ति हि चन्द्रमण्डले राधे सदा चन्द्रमुखीदिचन्द्रिका श्रीकृष्णसूर्यो दिवि सूर्यमण्डले सूर्यप्रभा त्वम् परिधिप्रतिष्ठिता इन्द्रः सदास्ते किल यादवेन्द्रः तत्रैव राधे दुशचीशचीश्वरी हिरण्यरे हेदि सदा त्वं हि हिरण्मयी परा श्रीराजराजो हि विराजदेहरिर्विराजसे त्वं तु निधौ निधीश्वरी क्षीरांधिरूपिदु हरिस्त्वमेव हि तरङ्गिदक्षौ मसिदा तरङ्गिणी बिभ्रद्वभुः सर्वपदिर्यदा यदा, यदा। तदा तदा त्वं जगन्मयो ब्रह्ममयो हरिस्वयं जगन्मयी ब्रह्ममयि त्वमेव हि अदैव स्वयं व्रजराजनन्दनो जादासिराधे वृषभानुनन्दिनी याभ्यां कृदा स त्वमयि प्रशान्तये लीलाचरित्रायिर्ललितादिलीलया कृष्णस्वयं ब्रह्म परं लीला लीला तदिच्छाप्रकृतिस्त्वमेव परस्परं सन्धितविग्रहाभ्यां युवा विग्रहभ्यां। युवाभ्यां हरिराधिकाभ्यां गृहाणपत्रं निजनाथदत्तं शोकं परं मा कुरुराधिके त्वं ह्रस्वेन कालेन विधानकार्यं तत्रागमिष्यामि गृह्णिध्वमद्यैव कृष्णदत्तानि पत्राणि सुमङ्गलानि प्रत्यर्पितं यूधशतं च गोप्यकृष्णप्रियाणां व्रजसुन्दरीणां यदि श्रीगर्गसंहितायां मधुराखण्डे श्रीराधादर्शनं नाम ओम। पञ्चदशोऽध्यायः ओम् अध्यायम् श्री नारद उवाच राधापत्रम् सङ्गृहीत्वा शिरोनेत्रे तथा च हृद नेताय वाचयित्वा तत् स्मृत्वा तत्पादपङ्कजम् राजन्मोचयित्वा श्रु सन्तदिम् मूर्चमा, मूर्चमा, राधा यादवस्य प्रपश्यतः कुङ्कुमा गुरु पाडेरद्रवै पुष्परसैश्च सा अर्चिता चामरान्दोलै पुनश्चैतन्यताम् गदा वियोगसिन्धुसम्मग्नां राधां कमललोचनाम् वीक्ष्योद्धवस्तथा गोप्यो मुमुच्चुच्चाश्रुसन्ततिम् तासामश्रुप्रवाहेण राजन्वृन्दावने वने सद्य कह्लादसंयुक्तो जादौ सरोवरः दृष्ट्वा पीत्वा कर्मबन्धविनिर्मुक्त श्रीकृष्णं प्राप्नुयान्नृप अधोद्धवमुखा श्रुत्वा श्रीकृष्णागमनं पुनः पप्रच्छुकुशलं सर्वं श्रीकृष्णस्य महात्मनः श्रीराधोवाच आन्नं ददं श्रीव्रजराजनन्दनं द्रक्ष्यामि कस्मिन् समये घनप्रभं कनं मयूरिव समुत्सुका भृश्यं चन्द्रं च कोरीव तदक्षणोत्सुकस्मिन् कुकाले विरको बभूव मे येनैव कौ कल्पसमः क्षणः क्षणः निषिधिनीयं करो गोविंद करोति गोविन्दपदद्वयं विना कच्चित् कदाचिद्व्रजमागमिष्यति करोति किं तत्र हरिर्वदाशु मे अद्यैव यत्नेन धृता किलाशवः प्रहस्य प्रसह्य निर्यान्तिमृषा गिरातुराः दृष्ट्वा क्षणं त्वां मम पृच्छ शीतलं जातं प्रसन्नास्मि समागदे त्वयि यथा प्रसन्ना जनकात्मजापुरालङ्कापुरं वायुसुदे समागदे आशाम् विधाय निजमोहधनं विसृज्य विस्मृत्य वाक्यगदिदं मधुरां गतो यः तस्यापि पत्रलिखितं ह्यमृतं न मन्ये तं चानयस्वकिलमन्त्रविदां वरिष्ठ उवाच उद्धव उवाच गत्वा पुरीं तव परं विरकं निवेद्याथार्थं विनाय विधाय निजनेत्रजलेन राधे नीत्वा हरिं तव पुरपुनरागतोऽस्मि मा शोकमद्य गुरु मे श्रीनारद उवाच अधप्रसन्ना प्रसन्ना श्रीराधा चन्द्रकान्तौ मणिशोभौ रासरङ्गे चन्द्र दत्तौ उद्धवाय ददौ नृप सहस्रदलपद्मे द्वे दत्ते चन्द्रमसा पुरा उद्धवाय ददौ राधा प्रसन्ना भक्तवत्सला चत्रं सिंहासनं दिव्यं मनोहरे श्रीकृष्णमनस्सोद्भूते ददौ तस्मै हरिप्रिया ऐश्वर्यं ज्ञानसम्पन्नं सर्वदेशिकदेशिकं कृष्णसंयोगकर्तृत्वं सदा तव भविष्यति भक्तिं निर्गुणभावाढ्यं प्रेमलक्षणसंयुधां ज्ञानं विज्ञानसहितं वैराग्यं साधदौ पुनः शङ्खचूडाजहरिणानिदं चूडामणिं शुभम् चन्द्राननौ ददौ तस्मै उद्धवाय विदेहराड तथा गोपीगण सर्वे भूषणानाम् च यम् ददु प्रसन्ना हे राजन्नुद्धवाय महात्मने श्रीनारद उवाच श्रुत्वा वचश्चौपगवे शुभार्धम् सुखम् गदायाम् किलराधिकायाम् ऊचुस्त मा राध्व्रजगोपवध्वसदस्थितं सखं पृथक्ताः गोप्य ऊचुः यच्च पत्रलिखितं वदाशु नः किन्तु तच्च हरिणोक्तमद्भुतं त्वं परावरविदं हरे सख मन्द्रवित्तमस्तदाकृदि महान् मन्त्रवित्तमस्तदा कृधिर्महान् उद्धव उवाच यद्धा स्मरथ देवेशं तथा युष्मान् स्मरत्यसौ अनुवेलं गोपबध्वपश्यदो मेन संशयः ये कदा मां समाहूय स्मृत्वा युष्मान् रहस्करः कथयामास सन्देशं चित्तस्तं नन्दनन्दनः श्रीभगवानुवाजा गुणेषु सकृतं किल बन्धनाय रक्तं मनपुंसिज मुक्तये स्याद मनोद्वयो कारणमाहुराराजित्वा ददत्कौ विचरेदसङ्गः यदा स्वयं ब्रह्मपरात् परम् मामध्यात्मयोगेन विशारदेन जानाति सर्वत्र गतं विवेकी तदा विजह्यान् मनसः कषायम् यां बद्धनो मध्यगदस्तदुद्धितः स्वकर्मरूपं न हि दृग्प्रपश्यति स्थूलाचदूरेऽस्मिन् तत्त्वतो गनास्तस्माद्धियोगं गुरुदात्रसाधनं यत् साङ्घ्यभावै किल गम्यते पदम् तद्योगभावैरभिगम्यते स्वतः इति श्रीगर्गसंहितायां मधुराखण्डे राधागोप्याश्वासनं नाम षोडशोऽध्यायः ओम् अध्यायम् श्री नारद उवाच राधा पत्रम् सङ्गृहीत्वा शिरो नेत्रे तथा च हृत निधाय वाचयित्वा तत्स्मृत्वा तत्पादपङ्गजम् अधिप्रेमातुराराजन्मोचयित्वाश्रु सन्ततिम् मूर्च्छा मापरां राधा यादवस्य प्रपश्यतः कुङ्कुमागुरुपाडीरद्रवैः पुष्परसैश्च सा अर्चिता चामरान्दो लायः पुनश्चैतन्यदां गदा वियोगसिन्धुसम्मग्नां राधां कमललोचनां वीक्ष्योद्धवस्तथा गोप्यो मुमुचुश्चाश्रुसन्ततिं तासामश्रुप्रवाहेण राजन्वृन्दावने सद्य कह्लादसंयुक्तो जादो लीला सरोवरः दृष्ट्वा पीत्वा च सुस्नात्वा श्रुत्वा चे मां कथा नरः कर्मबन्धविनिर्मुक्तश्रीकृष्णं प्राप्नुया नृप अधोद्धवमुखाश्रुत्वा श्रीकृष्णागमनं पुनः प्रचुकुशलम् सर्वम् श्रीकृष्णस्य महात्मनः श्रीराधोवाच आनन्ददम् श्रीव्रजराजनन्दनम् द्रक्ष्यामि कस्मिन् समये खनप्रभम् खनम् मयूरीव समुत्सुकाम् भृश्यम् चन्द्रम् चकोरीव कस्मिन् कुकाले विरहो बभूव मे येनैव कौ कल्पसमः क्षणः क्षणः निषिधिनीयान्द्विपरार्थहेलनम् करोति गोविन्दपदद्वयं विना कचित कच्चित् कदाचिद्व्रजमागमिष्यदि करोति किं तत्र हरिर्वदाशु मे अद्यैव यत्नेन धृता किला सवः प्रसह्य निर्यान्दी मृषा गिरातुराः दृष्ट्वा क्षणं त्वां मम हृत्य शीतलं प्रसन्नास्मि समागदे त्वयि यथा प्रसन्ना जनकात्मजापुरा गङ्गापुरं वायुसुदे समागदे आशां विधाय निजमोहधनम् विसृज्य विस्मृत्य वाक्यगदिदम् मधुरां गदो यः तस्यापि पत्रलिखितं ह्यमृदं न मन्ये तं चानयस्व किल मन्द्रविदां वरिष्ठ उद्धव उवाच गत्वा पुरीं तव परं विरकं निवेद्याधार्थं विधाय निजनेत्रजलेन राधे नीत्वा हरिं तव पुरः पुनरागतोऽस्मि मा शोगमद्य कुरु श्रीनारद उवाच अथ प्रसन्ना श्रीराधाचन्द्रकान्तौ मणिशुभौ रासरंगे चन्द्र उद्धवाय ददौ नृप सहस्रदलपद्मे द्वे दत्ते चन्द्रमस्सा पुरा उद्धवाय ददौ राधा प्रसन्ना भक्तवत्सला छत्रम् दिव्यं दिव्यम् चामरे द्वे मनोहरे श्रीकृष्ण मनस्सोद्भूते ददौ तस्मै हरिप्रिया ऐश्वर्यं ज्ञानसम्पन्नं सर्वदेशिकदेशिकं कृष्णसंयोगकर्तृत्वं सदा तव भविष्यति भक्तिं निर्गुणभावाढ्यां प्रेमलक्षणसंयुधां ज्ञानं विज्ञानसहितं वैराग्यं सा ददौ पुनः शङ्खचूडाच हरिणानीदं चूडामणिं शुभं चन्द्रानना ददौ तस्मै उद्धवाय विदेहराट तथा गोपीगणाः सर्वे भूषणानां चयम् शुभं दधु प्रसन्नाहे राजन्ुद्धवाय महात्मने नारद उवाच श्रुत्वा वजश्चौप गवेः शुभार्धम् सुखम् गदायाम् किल राधिकायाम् ऊजुस्तमाराध्व्रज गोप वध्वसदस्थितम् कृष्णसखम् पृथक्ताः गोप्य ऊचुः यच्च पत्रलिखितम् वदाशुनः किन्तु तच्च हरिणोक्तमद्भुतम् त्वम् परावरविदम् हरे सखा मन्द्रवित्तमस्तदा कृधिर्महान् उद्धव उवाच यथा स्मरथ देवेशं तथा युष्मान् स्मरत्य सौ अनुवेलङ्गोपवध्वपश्यदो मेन संशयः ये कदा माम् समाहूय स्मृत्वा युष्मान् रहस्करः कथयामास सन्देशम् चित्तस्तम् नन्दनन्दनः नंत श्रीभगवानुवाच गुणेषु सकदम् किल बन्धनाय रक्तम् मनपुंसिजमुक्तये स्याद् मनोद्वयो कारणमाहुराराजित्वाद तत्कौ विचरेद सङ्गः यदा स्वयम् ब्रह्मपरात् परमा मध्यात्मयोगेन विशारदेना जानाति सर्वत्र गतं विवेही तदा विजह्यान्मनस्सषायं यावद्धनो मध्यगदस्तदुद्धिदस्वकर्मरूपं न हि दृक्प्रपश्यति स्थूला च दूरेऽस्मि न तत्त्वतोऽङ्गनास्तस्माद्धियोगं कुरुदादसाधनं यत्साङ्ख्यभावैकिल गम्यदे तद्योगभावैरभिगम्यते स्वतः इति श्रीगर्गसंहितायां मधुराखण्डे राधा गोप्याश्वासनं नाम षोडशोऽध्यायः ओ